अथ चतुर्विंशः सर्गः सा राज्ञा विरराजव्यवस्थिता शशिनाशुभनक्षत्रा पौर्णमासीव शारदी प्रचचाल च वेगेन त्रस्ता चैव वसुन्धरा पीड्यमानाबलौघेन तेन सागरवर्चसा ततः शुश्रुवुराकृष्टम् लङ्कायाम् काननौकसः भेरी भेरीमृदङ्गसङ्घोष्टम् तुमुलम् लोमहर्षणम् बभूपुस्तेन घोषेण सम्भृष्टा हरियूथपाः अमृष्यमाणास्तद्घोषम् विने दुर्घोषवत्तरम् राक्षसास्तत् प्लवङ्गानाम् शुश्रुगुस्तेऽपि गर्जितम् नर्दतामिव दृक्तानाम् मेघानामम्बरेऽस्वनम् दृष्ट्वा दाशरथिर्लङ्काम् चित्रध्वज पताकिनीम् जगामममनसा सीताम् दूयमानेन चेतसा अत्र सा मृगशावाक्षी रावणेनोपरुध्यते अभिभूताग्रहेणेव लोहिताङ्गेन रोहिणी दीर्घमुष्णम् च निःश्वस्य समुद्वीक्ष्य च लक्ष्मणम् उवाच वचनम् वीरस्तत्कालहितमात्मनः आलिखन्तीमिवाकाशमुत्थिताम् पश्य लक्ष्मण मनसेव कृताम् लङ्काम् नगाग्रे विश्वकर्मणा विमानैर्बहुभिर्लङ्का सङ्कीर्ना रचिता पुरा विष्णोः पदमिवाकाशम् छादितम् पाण्डुभिर्घनैः पुष्पितैः शोभिता लङ्का वनैश्चित्ररथोपमैः नानापतकसङ्घुष्टफलपुष्पोपगैः प्रलीनभ्रमराणि च कोकिला कोकिलाकुखंडा दोधवीति शिव निल दाशरथी रामो लक्ष्मण् सामषत बलज्छास्त्रदृष्टेन कर्मण शेना बलाय वीय अंगद सह नील दुरसी दुर्जय ठेद्वानरवाहिवानरौस आश्रितो दक्षिणम् पार्श्ववृषभो नाम वानरः गन्धहस्तीव दुर्धर्षस्तरस्वी गन्धमादनः तिष्ठेद्वानरवाहिन्याः सव्यम् पार्श्वमधिष्ठितः मूर्ध्नि यन्तो लक्ष्मणेन समन्वितः जाम्बवांश्च सुषेणश्च वेगदर्शी च वानरः रक्षा महात्मा कुक्षि रक्षं जघनम कपेनाया कपराजि पश्चाधम लोकस्या प्रचेतास्तेजसा वृत सुबिभ्यूहा महावानरक्षिता अनेनीब यथा दौसा भ्रसंप्लवा प्रगृह्य गिरीशृंगाणि महत महीहा आसे दुर्वानरालङ्काम् विमर्दयिषवोरणे शिखरैर्विकिरामयीनाम् लङ्काम् मुष्टिभिरेव वा इति स्मदधिरे सर्वे मनाम् सि हरिपुङ्गवाह ततो रामो महातेजाः सुग्रीवमिदमब्रवीत् सुविभक्तानि सैन्यानि शुक एष रामस्य तु वच श्रुत्वा वानरेन्द्रो महाबलः मोचयामास तम् दूतम् शुकम् रामस्य शासनात् मोचितो रामवाक्येन वानरैश्च निपीडितः शुकः परमसन्त्रस्तो रक्षोऽधिपमुपागमत् रावणः प्रहसन्नेव वा शुकम् वाक्यमुवाचः किमिमौ पक्षौ लूनपक्षश्च दृश्यसे कच्चिन्नानेकचित्तानाम् तेषाम् त्वम् वशमागतः ततः सभयसंविज्ञस्तेन राज्ञाभिचोदितः वचनम् प्रत्युवाचेदम् राक्षसाधिपमुत्तमम् सागरस्योत्तरे तीरे ब्रुवन्ते वचनम् तथा यथा सन्देशमक्लिष्टम् सान्त्वयञ्श्लक्ष्मया गिरा क्रुद्धैस्तैरहमुत्प्लुत्य दृष्टमात्रः प्लवङ्गमैः गृहीतोऽस्म्यपि चारब्धो लोप्तुम् च मुष्टिभिः न ते सम्भाषितुम् विद्यते प्रकृत्या कोपनास्तीक्ष्णा वा नराराक्षसाधिपा स च हन्ता एष रक्षांसि निर्धूय धन्वी तिष्ठति राघवः ऋक्षवानरसङ्घानामनीकानि सहस्रशः गिरिमेघनिकाषानाम् छादयन्ति वसुन्धराम् राक्षसानाम् वलोघस्य वानरेन्द्रबलस्य च नैतयोर्विद्यते सन्धिर्देव दानवयोरिव पुरा प्राकारमायान्ति क्षिप्रमेकतरम् कुरु सीताम् चास्मै प्रयच्छाशु युद्धं वापि प्रदीयता शुकस्य वचनम् श्रुत्वा रावणो वाक्यमब्रवीत् रोषसंरक्तनयनो निर्दहन्निव चक्षुषा यदि माम् प्रति युद्धेरम् देवगन्धर्वदानवाः नैव प्रदास्यामि सर्वलोकभयादपि कदा समभिधावन्ति मामकाराघवंशराः वसन्ते पुष्पितम् मत्ता भ्रमरा इव पादपम् कदा शोणितदिग्धाङ्गम् दीप्तैः कार्मुकविच्युतैः शरैरादीपयिष्यामि उल्काभिरिवकुञ्जरम् तच्चास्य बलमादास्ये बले न महतावृतः ज्योतिषामिव सर्वेषाम् प्रभामुद्यम् दिवाकरः सागरस्येव वेगो मारुतस्येव बलम् न च दाशरथिर्वेद तेन माम् योद्धुमिच्छति न मे तूणीशयान् बाणान् सविषानिवपन्नगान् रामः पश्यति सङ्ग्रामे तेन माम् योद्धुमिच्छति न जानाति पुरा वीर्यम् मम युद्धे स राघवः मम चापमयीम् नाराचतलसन्नादाम् नदीमहितवाहिनीम् अवगाह्यमहारङ्गम् वादयिष्याम्यहम् रणे न वा सवेनापि सहस्रचक्षुषा युद्धेऽस्मि शक्यो वरुणेन वा स्वयम् यमेन वा दर्शयितुम् शराज्ञिना महाहवे वै श्रवणेन वा युद्धकाण्डे चतुर्विंशः सर्गः